हर ओ श्री सीता अथ श्रीमद्वामीक राये अयोध्या अठादी संवाद अनया सीताए प्रेमोपहार दानसूयया फुट सीतयांत वर्णनम सा मुक्ता वैदे न तन, सूय पतिपूज्य वचो मन्नम् प्रवक्तुम् अपचक्रमे नैतैराश्चर्यमार्यायां यन्मान्तमनुभाषते विदितं तु ममाप्येत यथा नार्यः पति गुरुः यद्यप्येष भवेद्भर्ता अनार्यो वृत्तिवर्जितः अद्वैधं वैत्र वक्तव्यम् तथाप्येष मया भवेत् किं पुनर्यो गुणश्लाघ्य सानुक्रोशो जितेन्द्रिय स्थिरानुरागो धर्मात्मा मातृवत् पितृवत् प्रियः यां वृत्तिम् रामः महा। कौसल्यायाम् महाबलः सामेव नृपनारीणाम् अन्यासामपि वर्तते सकृद् स्वपि स्त्रीषु नृपेण नृपवत्सलः मातृवद्वर्तते वीरो मानम् उत्सृज्य धर्मवेत् आगच्छन् चाशविजनम् वनमेवम्भयावहम् समाहितम् हिम्बेश्व हृदये यत् स्थिरम् मम पाणिप्रदानकाले च यत्पुरत्वग्नि वाक्यं तदपि मे धृतम् न विस्मृतम् तु मे सर्वम् वाक्ये स्वैर्धर्मचारिणि पतिषुश्रूषणा नार्य ततो तपो नान्यद्विधीयते सावित्री पतिशुश्रूषाम् कृत्वा स्वर्गे तथा वृत्ति च याता त्वम् वरिष्ठा सर्वनारीणाम् एषा च दिवि देवता दोहिणीन विलाचन्द्रम् मुहूर्तम् अपि दृश्यते एवं विधा च प्रवराः स्त्रियो भर्तृ दृढो देवलोके महीयन्ते पुण्येन स्वेन कर्मणा सतोनु नु स्वीया संवृष्टा श्रुत्वंसि श्रुताघ्राय पुचोहच मैथिलीम् हर्षयन्तु नियमे विविधेयाप्तम् तपो हि मदस्ति मे तत् संश्रित्य बलं सीते चन्दये त्वां शुचिव्रते उपपन्नम् च युक्तम् च वचनं तव मैथिली प्रीता चास्म्योचतां सीते प्रियं च तस्या सर्वचनम् श्रुत्वा विस्मिता मन्द विस्मय कृतमिति अब्रवीशिता तपोबलसमन्विताम् सा मुक्ता। धर्मज्ञा तया प्रीते तर भवेत् सफलं च प्रविशन्ति हन्त शीते करोम्यहम् इदम् दिव्यम् वरम् च अङ्गरागम् च वैदेहि महरहम् अनुलेपनम् मया दत्तम् इदम् सीते तव गात्राणि शोभयेत् अनुरूपम् असङ्क्लिष्टम् नित्यम् भविष्यति अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे शोभयिषशि भातारम् यथा श्रीविष्णुमव्ययम् सावत्रमङ्गरागं च भूषणानि सृजस्तथा मैथिली प्रतिजग्राह प्रीतिदानम् मनोत्तमम् प्रतिगृह्य च तत्सीता प्रीतिदानं वचनं प्रष्टुमारेभे कथां काञ्चिदनुप्रियाम् स्वयंवरे किल सम्मनेन त्वम्मनेन यशस्विन राघवेणेति मे सीते कथाश्रुतिम् अपागता तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिली यथाभूतं च कास्नेन तन्मे त्वम् एवं उक्ता सुशासीता तापसीम् धर्मचारिणीम् श्रूयताम् इति च प्रोक्त्वा कत्या कथयामासताम् कथाम् मिथिलाधिपतिर्वीरो जनको नाम धर्मवीत् क्षत्रकर्मण्यभीरतु ज्ञायते शास्त्रमेदिनीम् तस्य लाङ्गूलहस्तस्य अहं किलो स्थिता भीत्वा जगतिम् नृपते सुता स मां दृष्ट्वा नरपती मुष्टिवीक्षेप तत्परः पांशु उञ्चित सर्वाङ्गीम् विस्मितो जनको भवेत् अनपत्येन च स्नेहात् अङ्कम् आरोप्य च स्वयम् ममेयं स स्नेहो मयि अंतरिक्षे च वा गुप्ता पते मा मानुषे किल एवमेतन्नरपते धर्मेण तनया तवे तत प्ररुष्टो धर्मात्मा पितामे मे मिथिलाधिपः अवाप्तो विपलाम् वृद्धिम् माम् अवाप्य नराधिपे दत्ता चास्मिष्टवेद्देवै पुण्यकर्मणे तथा सम्भाविता चास्मि स्निग्धया मातृसौहृदय पतिसंयोग सुलभम् वयो दृष्ट्वा तु मे पिता चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः सदृशा चापकृष्टाश्च लोके कन्या पिता जनत् प्रहर्षणम् अवाप्नोति शक्रेणापि तान् धर्षणां दूरस्थाम् सन्दृश्यात्मनि पार्थिव चिन्ता नवगतवारम् नास सा दाः प्लवो यथा अयोनियाम् च महीपालयपतिं तस्य बुद्धियम् दाता चिन्तयनस्य सन्ततम् स्वयंवरम् तनोजाय करिष्यामीति धर्मतः महायज्ञो तदा तस्य वरुणेन महात्मना दत्तं धनुर्वरम् प्रीत्या तूणि चाक्षय्य सायकौ असञ्चाल्यम् मनुष्यैश्च यत्नेनापि च गौरवत् तन्न शक्ता नमयितुम् स्वप्नेष्वपि ननाधिप तद्धनु प्राप्य पित्रा व्यवहृतम् सत्यवादिन समवाये नरेन्द्राणाम् पूर्वम् मा मन्त्रपातिवान् इदम् च धनुरुद्यम्य सज्जम् यः कुरुते नर हे तस्य मे धुहिता भार्या भविष्यति न संशय हे तच्च दृष्ट्वा धनुश्रेष्ठम् गौरवाद्गिरिसन्निभम् अभिवाद्य नृपा जग्मु अशक्ता तस्य तोलने सुदीर्घस्य हेतुकालस्य राघवोऽयं ह्युतिः विश्वामित्रेण सहितो यज्ञं द्रष्टुम् समागतः लक्ष्मणेन स भ्रात्रा राम सत्य पराक्रमः मम पित्रः सुपूजितः प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ सुतोदश रथस्येमो धनुर्दर्शनकाङ्क्षिणौ धनुर्दर्शय रामाय राजपुत्राय दैविकम् इत्युक्तः तेन विप्रेण तद्धनुसमुपानयेत् तद्धनुर्दर्शयामास राजपुत्राय दैविकं, दैविकं। निमेषान्तरमात्रेण तदा नम्य महाबले जांसमारोप्य झटिति पूरया मास वीर्यवान् तेना पूरयता वेगान् मध्ये भग्नम् द्विधाधनु तस्य शब्दो भवद्भीमहि पति तस्यानि यथा ततोऽहम् तत्र रामाय पित्रा सत्याभिसन्धिन उद्यता दातुमुद्यम्य जलभय जनमुत्तमम् प्रति जग्राह राघवे अविज्ञाय पितृच्छन्दम् अयोध्याधिपते प्रभो ततः शूर मामन्त्र्य वृद्धं दशरथं नृपम् मम पितृ दत्ता रामय विदितात्मने मम चैव अनुजा साध्वी कूर्मिला शुभ दर्शन भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् एवं दत्तास्मि रामाय तथा तस्मिन् स्वयं वरे अनुरक्तास्मि धर्मेण पतिं प्रिय पतिं वीर्यवताम्बरम् इत्याशि श्रीमद् रामायणे वाल्मीकियादिकाव्यद्याकाण्डे अषाद सर्ग श्री सीताचंद्रारणमस्तु